गरुडपुराणम् आचारकाण्डम् अध्यायम् 16. रुद्र उवाच पुनर्ध्यानं समाचक्ष्व, समाचक्ष्वशङ्कचक्रगदाधर विष्णोरीशस्य देवस्य शुद्धस्य परमात्मनः हरिरुवाच हरेर्ध्यानं, संसारतरुणाशनम् दृशिरूपमनन्तं च सर्वव्याप्यजमव्ययम् अक्षरं सर्वगं नित्यं महद्ब्रह्मास्ति केवलं सर्वस्य जगतो मूलं सर्वगं परमेश्वरम् सर्वभूतहृदिस्थं वै सर्वभूतमहेश्वरं सर्वाधारं निराधारं सर्वकारणकारणम् अलेपकं तथा मुक्तं मुक्तयोगिविचिन्तितं स्थूलदेहविहीनं च चक्षुषा परिवर्जितं वागिन्द्रियविहीनं च प्राणिधर्मविवर्जितं प्राणेन्द्रियविहीनं च वाग्धर्मपरिवर्जितं पायूपस्तविहीनं च सर्वैन्द्रियविवर्जितम् मनो विरहितं तद्वन्मनो धर्मविवर्जितं बुद्ध्या विहीनं देवेशं चेदसा अहङ्कारविहीनं वै बुद्धिर्धर्मविवर्जितं प्राणेन रहितं चैवह्यपानेन विवर्जितं व्यानाख्यवायुहीनं वै हरिरुवाच पुनः सूर्यर्चनं वक्ष्ये यदुक्तं भृगवे पुरा ॐ खगोल्काय नमः सूर्यस्य मूलमन्द्रोऽयं भुक्तिमुक्तिप्रदायकः ॐ खगोल्कायत्रिदशाय नमः ॐ विचिठ शिरसे नमः ॐ ज्ञानिने ठठ शिखायै नमः ॐ सहस्ररश्मये ठठ कवचाय नमः ॐ सर्वतेज्योधिपतये ठ अस्त्राय नमः ॐ ज्वलज्ज्वल प्रज्वल प्रज्वल ठठ नमः अग्निप्राकारमन्द्रोऽयं सूर्यस्याखविनाशनः ओम् आदित्याय विद्महे विश्वभा वाय धीमहि तन्नः सूर्यप्रचोदयाद सकलीकरणम् कुल्यात् गायत्र्या भास्करस्य च धर्मात्मने च पूर्वस्मिन् यमायेति च दक्षिणे दण्डनायकाय दण्डनायकाय तदो दैवतायेदि चोत्तरे श्यामपिङ्गलमैशान्यामाग्नेयां दीक्षितम् यजेद वज्रपाणिं च नैहृत्यां भूभुवस्वश्च वायवे ओम चन्द्राय नक्षत्राधिपतये नमः ओम अङ्गारकाय क्षिदिसुदाय नमः ॐ बुधाय सोमसुदाय नमः ॐ वागीश्वराय सर्वविद्याधिपतये नमः ॐ शुक्राय महर्षये भृगुसुदाय नमः ॐ शनैश्चराय सूर्यात्मजाय नमः ॐ राघवे नमः ॐ केदवे नमः पूर्वाधीशानपर्यन्ता एते पूज्या वृषध्वज अनूकाय नमः ॐ प्रथमनाथाय नमः ॐ बुद्धाय नमः ॐ भगवन्नपरिमिदमयूखमालिन् सकल जगत्पदे सप्ताश्ववाहन चतुर्भुज परमसिद्धिप्रद विस्फुलिङ्गपिङ्गल तदयेह्येहि इदमर्घ्यं मम शिरसि गतम् गृह्ण गृह्ण ते जोग्ररूपम् अनग्न ज्वलज्वल ठ ठ नमः अनेनावाह्यमन्त्रेण तद सूर्यम् विसर्जयेत् ॐ नमो भगवते आदित्याय सहस्रत्र सहस्रकिरणाय गच्छत्सुखं पुनरागमनायेदि इति श्रीगारुडे महापुराणे आचारखण्डे हरिध्यानसूर्यार्चनयोर्निरूपणम् नाम षोडशोऽध्यायः ओम्